महावाक्यरत्नावले विंशं प्रकरणम् अथ सार्धान्तिकविदेहमुक्तिवाक्यानि सप्तसप्ततिः विमुक्तश्च विमुच्यते गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति अथा, विमुक्तो अथा कामयमानो यो कामो निष्काम आत्मकाम आप्तकामो न तस्य प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति तद्यथा हि निर्वलयने वल्मीके मृता प्रत्यस्ता शयितैव मे वेदं शरीरं शेते यथाऽयं शरीरो मृतः णो ब्रह्म इव तेज एव अशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः सस्वराट् भवति पृथिव्यप्सु प्रलीयत आपो ज्योतिषे लीयन्ते ज्योतिर्वायौ विलीयते वायुराकाश आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिर्महती विलीयते महानव्यक्ते विलीयते व्यक्तमक्षरे विलीयते अक्षरं तमसि विलीयते तमः परे देव एकी भवति परस्तान्नसन्नासन्नः सदसत् ब्रह्माण्डम् तद्गतलोकान् कार्यरूपांश्च कारणत्वम् प्रापयित्वा ततः सूक्ष्माङ्गम् कर्मेन्द्रियाणि प्राणाश्च ज्ञानेन्द्रियाणि चैके कृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य भूमिम् जले जलम् वह्निं वायौ वायुमाकाशे चाकाशमहङ्कारे चाहङ्कारञ्ज् महति महदव्यक्ते अव्यक्तं पुरुषे क्रमेण विलीयते विराट् हिरण्यगर्भेश्वरा उपाधिविलयात् परमात्मनि लीयन्ते प्रारब्धक्षयवशाद्देहत्रयभङ्गम् प्रापोपाधिर्निर्मुक्तघटाकाशवत्परिपूर्णता विदेहमुक्तिः यदा सर्वे प्रमुच्यन्ते कामा येष्य श्रुदिश्रुताः अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते वेदिज्ञान सुनितासा यतय शुद्धस ब्रह्म लोकसु पातकाच्य ध्याना भूयश्चाते विश्व माया जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालशात्कृते विशत्यदेहमुक्तत्वं पवनोस्पंदतामिवा स्पन्दतामिव ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरम् यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् पुरुषः साङ्ख्यसृष्टीनामीश्वरो योगवादिनाम् शिवः शैवागमस्थानां कालः कालैकवादिनाम् यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम यत्सर्वं सर्वगम् वस्तु यत्तत्त्वं तदसौ स्थितः यदनुक्तमनुष्पन्दम् दीपकम् तेजसामपि स्वानुभूत्यैकमानञ्च यत्तत्त्वं तदसौ स्थितः यदेकं चाप्यनेकञ्च साञ्जनञ्च निरञ्जनम् यत्सर्वं चाप्य सर्वञ्च यत्तत्त्वं तदसौ स्थितः निरानन्दोऽपि सानन्दः सच्चा सच्च बभूवसः न चेतनो न च जडो न चैवसन्नसन्मयः अनाद्यम् माध्यमेकम् पदम् अमलम् सकलम् च निष्कलञ्च स्थित इति स स्थ तदा नभस्वरूपादपि विमलास्थितिरीश्वरक्षणेन व्यपगतकलनाकलङ्कशुद्धः स्वयम् अमलात्मने पावनेपदेऽसौ सलिलकण इवाम्बुधौ महात्मा विगलित विगलितवासनमेकतां जगाम संशान्तदुःखम् मजडात्मकं एकं सुप्तमानन्दम् अन्तरमपेतत्र रजस्तमो यत् आकाशकोशतनवोऽतनवो महान्तस्मिन् पदे गलितचित्तलवा भवन्ति विदेहमुक्त एवासौ विद्यते निष्कलात्मकः समग्राग्रगुणाधारमपि सत्वम् प्रलीयते विदेहमुक्तौ विमले पदे परमपावने विदेहमुक्तिविषये तस्मिन् सत्त्वक्षयात्मके चित्तनाशे विरूपाख्ये न किञ्चिदिह विद्यते न ना गुणा नागुणास्तत्र न श्रीर्ना श्रीर्न श्रीर, श्रीर, चैकता जीवन्नेव सदा कृतार्थो ब्रह्मव्यत्तमः उपाधिनाशाद् ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् शास्त्रेण नश्येत् परमार्थदृष्टिः कार्यक्षमं नश्यते चापरोक्षात् प्रारब्धनाशात्प्रतिभासुनाश एवंविधा नश्यते चात्ममाया निलवयने सर्प निर्वोको जीववर्जि वीक पतिस्तिषे तम सर्पो नमें स्थूल शरीरम नाभिमें प्रत्यशकते मिथ्याज हेतुके नेति नेतीति रूपद्वादशरीरो भवत्ययम् विश्वश्च तैजसश्चैव प्राज्ञश्चेति च तैत्रयः विराढिरण्यगर्भश्च ईश्वरश्चेति च तैत्रयः ब्रह्माण्डम् चैव पिण्डाण्डम् लोका भूरादयः क्रमात् स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि तूष्णीमेवस्तितस्तूष्णीम् तूष्णीम् सत्यं न किञ्चन कालभेदम् वस्तुभेदम् देशभेदम् स्वभेदकम् किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते जीवेश्वरेति वा क्वेति वेदशास्त्राणि क्वाहं त्विति इदं चैतन्यमेवेति अहं चैतन्यमित्यपि इति निश्चयशून्यो यो वैदेही मुक्त एव ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयसुके स्वच्छरूपो महामौने वैदेहे मुक्त एव सः ब्रह्मैवाहं चिदेवाहम् एवं वापे न विञ्चिन्त्यते चिन्मात्रेणैव यस्तिष्ठेद्वैदेहे मुक्त एव सः तुर्यतुर्यः परानन्दो वैदेहीमुक्त एव सः यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न अतीतातीतभावो यो वैदेहीमुक्त एव सः चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवासकः सर्ववृत्तिविहीनात्मा वैदेहीमुक्त एव सः सर्वत्रैवाहमात्मास्मि परमात्मा परात्मकः नित्यानन्दस्वरूपात्मा वैदेहीमुक्त एव सः जीवात्मा परमात्मेति चिन्ता सर्वस्ववर्जितः सर्वसङ्कल्पहीनात्मा वैदेहीमुक्त एव सः आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदम् आत्मकः भावाभावविहीनात्मा वैदेहीमुक्त एव सः ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः अवस्थात्रयहीनात्मा वैदेहीमुक्त एव सः इति सार्धान्तिकविदेहमुक्तिवाक्यानि सप्तसप्ततिः इत्येवं सार्धान्तिकविद्यादिविदेहकैवल्यन्तमहावाक्यान्य अष्टोत्तरसहस्रम् विंशम् प्रकरणं समाप्तम्